मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायम् एटीन् भरतमृहदेहत्यागम् श्रीगणेशाय नमः मुद्गल उवाच क्रमेण योगशान्तिं च प्राप्तोऽसौ पुलः स्वयं नित्यं गणेशमूर्तिं प्रापूजयद्भक्तिसंयुधः ध्याननिष्ठः सदा योगीतमेवाचिन्तयत्प्रभुं तद कियदि काले तं गणेशानो ययौ मुनिम् विप्रो ध्याननिष्ठतया यदा तदा हृदि स्थितो दुण्ठिर्गणेशेन प्रलोपितः अन्तर्हितं हृदिस्थं तम् गणेशं न ददर्शः तदाभ्रान्त इवापश्यद्दर्श गणपम्बहिः उद्धाय सहसा विप्रस्थं न नाम कृताञ्जलिः विधिवत् पूजयामास विनायकमनामयं पूजयित्वा नमस्कृत्य तं तुष्टाव कृताञ्जलिः सरोमाञ्ज शरीरस्सन्कर्ष गद्गदया गिरा पुलः उवाच नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे विघ्नधात्रे ह्यभक्तानां गणेशाय नमो नमः ब्रह्मणे ब्रह्मरूपाय निराकाराय दे नमः साक्षिणे सर्वसंस्थाया नादिसिद्धाय दे नमः रामयाय देवाय प्रतर्क्याय महौजसे वक्रतुण्डाय वैदुभ्यं हेरम्बाय नमो नमः स्वानन्दवासिने तुभ्यं भक्तसंरक्षकाय च योगानां पदये चैव योगदायिन्नमो नमः शान्दाय शान्दरूपाय शान्दीनां पदये नमः भक्तेभ्यः शान्तिदात्रे च योगशान्दाय ते नमः नानावताररूपाय जगदाधारमूर्तये सुरासुराणामीशाय सर्वगाय नमो नमः सर्ववन्द्याय वैतुभ्यं सर्वादौ संस्थिताय च सर्वान्ध एकरूपाय मध्ये नानास्वरूपिणे आदिमध्यान्धहीनाय सृष्टिस्थित्यन्धकारिणे अनन्दोदरसंस्थाय लम्बोदर नमोऽस्तु ते गजवक्त्राय वैतुभ्यं गजकर्णाय पूर्णाय गजानन नमोऽस्तु दे मूषकध्वजरूपाय मूषकारूढरूपिणे पाशाङ्कुशधरायैव स्तुताय च विभुतिभिः चतुर्भुजधरायैव चतुर्वर्गमयाय च ब्रह्मभूतस्वरूपाय देहधारिणमो नमः यं वेदवादिनस्तोदुं वेदा योगिनः शिवविष्णुमुखादेवा न समर्था भवन्ति तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् अदो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा वरं मे देहि योगात्मन्तेन तुष्टो भवाम्यहम् तव भक्तिम् दृढाम् ढुण्ढे व्यभिचारविवर्जिताम् एवमुक्त्वा मुनिस्तत्र नर्तप्रेमविह्वलः संभक्तिरसंयुक्तवाच गणनायक गणेश उवाच मदीया सुदृढ़ा भक्ति्यचार विवर्जिता भविष्य महायोगी तव चानंदयि यदा मे स्म ईक्यसी महामते तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ भवत्कृदमदीयं यत् स्तोत्रं भक्तिप्रदं भवेत् भुक्तिमुक्तिप्रदं प्रोक्तं चान्दियोगप्रदायकं यः पठिष्य दि वै मर्त्यशृणुयात् सर्वसौख्यभाक भविष्यदि न सन्देहो यथा स तथा भवेद मुद्गल उवाच एवमुक्त्वा गणाधीशस्तत्रैवान्तर्दधे प्रभुः पुलहस्तत्र सन्धस्तावभजत्तं गणाधिपं मृगरूपधरस्तत्र भरधः पृथिवीपदिः संस्थितस्तत्र शुश्रावपूर्णं ज्ञानं विधानदः ब्रह्मणा कथितं यच्च पुलहायसुधीमते तदेव तेन भूपेन धृतं स्वहृदि सर्वदा मनसि ध्यानसंयुक्तो बभूव मृगदेहजः गणेशस्य सदाकृष्टस्तत्र वासं चकारसः ततस्तेन च सङ्गीतं तच्छृणुष्व प्रजापते अहो विघ्नो महाघोरो मया प्राप्तः राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् तत्रापि मृगसङ्गेन सञ्जातो मृगरूपधृक विष्णो मुख्यामरेशाना विघ्नयुक्ता न संशयः तत्र मनुष्यो वै जयन् वै विनमुल्बणं विघ्नराजप्रसादेन विघ्नं निघ्नं दिदुर्जयं शिवविष्णवादय सर्वे जन्तवश्च तथापरे धन्याभक्तिर्मत्कृताया वैष्णवी परमाद्भुता यया संस्कारसंयुक्तं संप्राप्तं ज्ञानमुत्तमं गणपत्यो महायोगी दृष्टो मया अहो भाग्यमहो भाग्यं मदीयं परमं मदम् येनाहं गणपत्यानां सङ्गे तिष्ठामि नित्यशः विघ्नहीनस्वभावेन भजामि गणनायकं एवं गणेशभक् वै संयुधो मृगसत्तमः कालेन गणपं ध्यात्वा देहत्यागं चकारः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भरतमृगदेवत्यागो नामाष्टादशोऽध्यायः ॐ